गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवेण्टिफोर् व्यास उवाच ब्रह्मन् कथं कृतं तेन शूरसेन भूभुजा सेदिहासं शक्रमुखा श्रुत्वा सादरमुत्तमं ब्रह्मोवाच तद स्वदूतान् प्राखेदं गच्छन्तु नगरं प्रति स आने यस्तु सङ्कष्टचतुर्थीव्रतकारकः ते दूतास्त्वरया यादाः पप्रच्छुस्ते गृहं गृहं भ्रममानास्ते विमानं सुन्दरं शुभम् या भवद्दुष्टचाण्डाली गलत्कुष्टा स्रवन्मुखमक्षिका कृमिभारेण दुर्गन्धेन समावृता शुष्कोदरी दीर्घकेशा शुष्कदन्ताक्षिनासिका अत्यन्तमलिना दीर्घश्रोत्ररन्ध्रा खनस्वना नेतुं तामीदृशीं दूधैरानीतां गणपस्य हि अत्याश्चर्यमिदमिति राजदूताः प्रणम्यताम् ऊचुस्ते देवदूतास्थान् गणनाथस्य किङ्करान् अत्यन्तं कुत्सिदा हिनेयं स्वर्गगाकथं केयमासीत् पुरा दूधा कथमीदृग्बभूव च केन पुण्येन युष्माभिः स्वर्गं तु नीयते कथं ये दद्वदन्तु सर्वं नो यदि वक्तुं क्षमं भवेदेवदुधा ऊजुः आसीद् मङ्गलविषये गधर नामदः क्षत्रियस्तस्य कन्येयं सुन्दरा नामसुन्दरी सुन्दरी पिककण्ठाशिमुखीरदिलावण्यजित्वरा यद्दास्य करणे नार्हा प्रसिद्धा अष्टनायिकाः योगिनामपि याचेध कटाक्षेन विमोहयेत् युवानो मुमुचुशुक्रं केचित्तद्रूपवीक्षणाद जारमार्गेषु निरदा सा भवद्विश्वमोहिनी महार्हवस्त्रालङ्कारा नाना भोगिनी नानाविषयभोगिनी नगरे ख्यादा वेश्ये वासिद्गदत्रया भर्तारं चित्रनामानं वञ्चयत्येव सर्वदा न्यायादसङ्ख्यद्रव्यस्य पित्रा सम्पादितं पुरा कदाचिच्चयने तं सा हित्वा सुन्दरवेषभृत निषिद्धे चलिता तेन हस्ते धारिरुषावशाद उवाच भत्सयंस्तां च चित्रनामापदिस्तदा दिक्त्वा पापसमाचारे या जारे निरतान्निश्यम् तद्वाक्यमिथ्यमाकर्ण्य शान्दकोपा भवत्तदा अभक्ष्य भक्षणेनासौ मत्ता बलवदी बलवदीभृश्यम् अन्धे तमसि सङ्गृह्य शास्त्रिकाम् दक्षहस्तदः तया तदुदरम् भीत्वा चित्रनाम पदेस्तदा गदादं पुरुषं रन्तुं यो जारो मनसि यावत्सारमदे तत्र तावत्पर्यन्तवासिना जाग्रदाचरितं तस्या ज्ञात्वा राज्ञे निवेदितम् तद्दूतास्तमसि स्थित्वा तावत् सा गृहमागदा दधुस्तां राजदूतास्ते निन्यो राजसमीपतः निजघ्नुस्तां बहिर्नीत्वा दूता तदा सा नरके खोरे यमदूतैस्तदा यजा अधो मुखी स्थिता तत्र सन्धष्टा कृमिभिर्भृश्यम् अत्यन्तम् बुभुजे दुःखं स्मरन्ति पूर्वजेष्ठिकं कल्पान्दे मृत्युलोके भुच्चाण्डाली दुर्भगाभृशम् एकदा मदिराम् पीत्वा मत्ता सुप्ता दिवैवसा निशायां प्रथमे यामे प्रबुद्धा क्षुधिता भृश्यम् तदैव भिक्षितुं व्यादा गृहं साव्रतकारिणः ते नान्नमस्यै दत्तम् यत्तया भुक्तं विधूदये गणेशेदिदजल्पन्त्या स्वेच्छया दैवयोगतः तदैव गणनाधेन विमानं प्रेषितं शुभम् ब्रह्मोवाच देवदूतव च श्रुत्वा राजदूदा ऊचुः इदमत्यद्भुतम् दृष्टमस्माभिः पर्यकारिभिः राज्ञा यदुपदिष्टम् नो वाक्यमेदन्निबोधत शक्रो गृत्समदम् दृष्टुम् विमानवरमास्थितः भृशुण्डिमाययौ देवैर्दृष्ट्वा नत्वा प्रपूज्यतं तदनुज्ञां च पूजां च गृहीत्वा स्वां पुरीं ययौ गच्छतस्तस्य यानं तच्छूरसेन पुरे पतत कुष्टिनो वैश्यपुत्रस्य दृष्टिपादेन तत्क्षणाद स्यूरसेनो गतस्तत्र नमस्कृत्य प्रपूज्यतं विमानपतने पृच्छदुपायं गमनेऽपि च इन्द्रेणोक्तं तु सङ्कष्टचतुर्थीव्रतसम्भवाद पुण्यात् प्रस्थास्यते यानं तदर्थे यत्नमाचरा वयं तदाज्ञया दूदास्तं गवेषितुमागतः अनया चेद्व्रतमिदं देवदूधाकृतं यदि तर्हीयं नीयतां शूरसेनं भूमिपदिं प्रदि श्रेयो दास्यति चाण्डाली सङ्कष्टीव्रतसम्भवम् पुनर्द्विगुणपुण्येयं विमानं प्रदियास्यति विमानमपि शक्रस्य स्वपुरीमागमिष्यति युष्मागमस्या अस्माकं कार्यं राज्ञशचीपतेः एवं कृते तु भविता क्रियतां इति तद्वचनं श्रुत्वा विदधुर्देवसेवकाः अज्ञानो नो गणेशस्यास्ति मां दातुं परस्य हि इत्युक्त्वा तां विमाने निदधुर्यद तदैवसा दिव्यकांदिर दिव्यकान्तिर्दिव्यवस्त्राङ्गभूषणा देवदूतैस्तु स नीता दिव्यवादित्रनिस्वनैः गजाननसमीपे स राजदूता यधागतं ययुस्ते शिरसेनं तं वृत्तान्तं समनुब्रुवन् ब्रुवत्सु तेषु तद्यानं चाण्डाल्या सह संव्रजेत ददृशुस्ते दीप्यमानं भासयत्प्रदिशोदिशः तस्यादृष्टिर्निपदिदा तस्मिन् याने शचीपतेः मानं वायु संस्पर्शाद्विमानमूर्ध्वमाययौ पश्यत्सु सर्वलोकेषु विस्मितेषु सुरर्षिषु स्वं स्वं स्थानं ययुः सर्वे शक्रे सापि वैनायकं धाम सम्प्राप्ता दिव्यदेहभाक पापम् हित्वादु सङ्कष्टचतुर्थीव्रतपुण्यदः इदं यशृणुयात् सम्यक् श्रावयेद्वा प्रयत्नदः प्राक्नुयात् सकलान् कामान् सङ्कष्टनाशनं नरः इति उपासना उपासनाखण्डे चतुस्सप्ततितमोऽध्यायः ओम्